मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं सिक्स्टीन् गणेशगीतासारकथनं श्रीगणेशाय नमः शिव उवाच गणेशवचनं श्रुत्वा प्रणता भक्तिभावदः पप्रच्युस्तं पुनः शान्ताज्ञानं ब्रूहि गजानना। गणेश उवाच देहशस्ुर्विध प्रोस्व ब्रह्म भेद देशुथ्रह्म सदैक्यत संयोग उभासी पदम ब्रह्म कथ्य से स्वधान देवा विक सदा स्वसुखनिष्ठं यद्ब्रह्मसाङ्ख्यं प्रकीर्तितं परतश्चोद्धानकं तत् क्रीडाहीनतया परं स्वतः परद उद्धानहीनं यद्ब्रह्म कथ्यदे स्वानन्दः सकलाभेदरूपसंयोगकारकः तदेव परदो ब्रह्मो ब्रह्मोद्धानं यद्विविधं स्मृतं ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभागवतः तयोरनुभवो यश्च योगिनां हृदिजायते दे। रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते mm. सा शक्तिरियमाख्यादा ब्रह्मरूपा ह्यसन्मयि तत्रामृदमयाधारसूर्य आत्मा शक्ति सूर्यमयो विष्णुरानन्दो नन्दनात्तयोः त्रिविधेषु तदाकारस्तत्र क्रियाहीनरूपकः शिवो नेदि चतुर्दोऽयं त्रिनेदि करणात्परः त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदा शिवः तेषामभेदे यद्ब्रह्मस्वानन्दः सर्वयोगदः पञ्चानां ब्रह्मणां यच्च बिम्बमायामयं स्मृतं ब्रह्मा स एव विज्ञेयसर्वादिसर्वभावनः बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः असत् सत् समनेधि स्वानन्दरूपा वयं स्मृताः परं ब्रह्मा योगाख्यं ब्रह्मणां भवेद् केषामभिप्रवेशो न तत्र तस्यापि कुत्रचित् मदीयं दर्शनं तत्र योगे नो योगिनां भवेद् स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे स्वानन्दवासिनं तेन वेदेषु प्रवदन्ति मां चतुर्नां ब्रह्मणां भोगास्तं योगाभेदयोगधः संयोगश्च ह्ययोगश्च तयो परतरो मदः पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकं पञ्च भूमिमयं चित्तं तत्र चिन्तामणिस्थितः पञ्च भूमिनिरोधेन प्राप्यते योगिभिर्हृदि शान्तिरूपात्मयोगेन तदशान्तिर्मदात्मिका ये तद्योगात्मकं ज्ञानं गणेशं कथितं मया नित्यं योगेन नैव मोहं प्रगच्छत चित्तरूपा नाना ब्रह्मविभेदेन ताभ्यां क्रीडति तत्पदिः त्यक्वा चिन्ताभिमानं च गणेशोकं समाधिना भविष्यन्ति भवन्तोऽपि मद्रूपामोहवर्जिताः शिव उवाच इत्युक्त्वा विररामाधगणेशो भक्तवत्सलः तेपि भेदं परित्यज्य शान्तिं प्ताश्च तत्क्षणाद् एकविंशति सुश्लोकैर्गणेशेन प्रकीर्तितं गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः गणेशगीतासारं च श्रोष्यदि पठिष्यति भावदः श्रोष्यति श्रद्धानश्चेद्ब्रह्मभूतसमो भवेद इह भुक्त्वाखिलान् भोगानन्दे योगमयो भवेत, दर्शनाथस्य लोकानां सर्वपापं लयं व्रजेत् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे प्रथमखण्डे वक्रतुण्डचरिते गणेश गीतासारकथनं नाम ॐ